श्रीहरये नमः अत एकविंशोऽध्यायः श्रीभगवानुवाच यजेतान् मत्पतोहित्वा भक्तिज्ञानक्रियात्मकान् शूद्रान् कामांश्चले प्राणैर्जुषन्तः संसरन्ति ते स्वे स्वेधिकारे या निष्ठासगुणः परिकीर्तितः विपर्ययस्तु दोषस्य उभयोरेश निश्चयः शुद्धशुद्धिविधीये ते वस्तुषु शु, द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ धर्मार्थं व्यवहारार्थं यात्रार्थमिति चानघ दर्शितोऽयं मया चारो धर्ममुत्मकतां दूरम् भूम्यं भवज्ञ निलाकाश भूतानां पंचधातवः धातवः आभ्रमस्तावरादीनां सारीरा आत्मसंयुताः वेदेन नामरूपाणि विषमाणि समेष्वपि धातु शुद्धवकल्प्यन्ते एतेषां स्वार्थसिद्धये देशकालादि वस्तूनां मम सत्तम गुणदोषौ विधीयेते नियमार्थं हि कर्मणा अकृष्णसारो देसना अब्रह्मण्योऽशुचिर्भवेत् कृष्णसारोप्य सौवीर कीकटासंस्कृते ऋणं कर्मण्यो गुणवान्कालो द्रव्यतस्वत एव वा यतो निवर्तते कर्म सदोशो दोषो कर्म कस्मृतः द्रव्यस्य शुद्धसद्धि च द्रव्येण वचनेन च संस्कारणात् महत्वाल्पतया तव शक्त्या शक्त्या तवा बुद्ध्या संवृत्या च यदात्मने अगङ्कुर्वन्ति हि यथा देशावस्थानुशारदः धान्यदार्वस्तितन्तूनां रसतैजसचर्मणां कालवायवग्नि मृत्यो यैः पार्थिवानां युधायुतैः अमेद्यलिप्तं यत्येन तेन गन्धं लेपं व्यपोहति भजते प्रकृतिं तस्य तच्छौचं तावदिश्यते स्नानदानतपोवस्था वीर्यसंस्कारकर्मभिः मत्स्मृत्या चात्मनः शौचं शुद्धकर्माचरे द्विजैः मन्त्रस्य च परिज्ञानं कर्म शुद्धिर्मदर्पणं धर्मः सम्भत्यदेषड्वे अधर्मस्तु विपर्ययः क्वचिद्गुणोऽपि दोषः स्याद् दोषोऽपि विदिता गुणः गुणदोषार्थनि नियमस्तद्भितामेव बाधते समानकर्माचरणं पतितानां न ना पातकम् औद्भक्तिको गुणः शङ्को न स यतो यतो निवर्तेत विमुच्येत ततस्ततः एष धर्मो नृणां क्षेम सोकमोहो विषयेषु गुणाध्यासात् पुंसः शङ्घस्तधो तत्र भवेत् काम कामादेव कलिर्नृण कलेर्दुर्विषः क्रोधस्तमस्तमनुवर्तते तमसा ग्रस्यते पुंशच्चेतनाव्यापि निधृतं तया विरहितसाधो जन्तु विभ्रंशो मूर्छितस्य मृधस्य च फलश्रुतिरियन्द्रनाम्न श्रेयो रोचनं परं श्रेयो विवक्षया प्रोक्तं यदा भैषज्य रोचनं उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च आसक्तमनसो मर्त्य आत्मनो नार्थहेतुषु न ता भ्राम्यतो वृजिनाध्वनि कथं ताम्स्तमो विसतो भूतः एवं व्यवसितं केचित् विज्ञायकुबुद्धयः फलं श्रुतिं कुसुमितां न वेदज्ञावतं दीः कामिन बलबुद्धयः अग्निमुग्धा धूमधान्ता स्वं लोकं न विदन्ति ते न ते मामङ्गजानन्ति हृतिस्तं ययिदं यथा उक्तशस्त्राख्यशुद्रुपो यथा नीकारचक्षुषः ते मे मतम् परोक्षं विषयात्मकाः हिंसायां यदि राग यज्ञ एव न चोदना हिंसाविहारा ह्या लब्धैः पशुपे स्वसुखेच्छया यजन्ते देवतायज्ञे पितृभूतपतीन्कलाः स्वप्नोपममममुं लोकमसन्तं श्रवणप्रियम् आशिषो हृतिसङ्कल्प्य त्यजन्त्यर्थान् यथा मणि रजस्तत्त्वतमो निष्ठा रजस्तत्त्वतमो जुषः उपासत इन्द्रमुख्यान् देवादीन्नतैव माम् इष्टेकदेवतायज्ञे गत्वारं स्यामहे दिवि तस्यान्तैः महाशाला महाकुलाः एवं पुष्पितया वाचां व्याक्षिप्तमनसामृणां मानीनां चातिस्तब्धानां मद्वार्तापि न रोचते वेता इमे परोक्षवाधारुषय परोक्षं मम च प्रियं शब्दब्रह्म सुधुर्भूतं प्राणेन्द्रियमनोमयम् अनन्तपारगम्भीरं दुर्विगाह्यं समुद्रमत् मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना भूतेषु घोषरूपेण विशेषोर्णेवलक्ष्यते यतोर्णाभिर्हृदयात् ऊर्णामुद्गमते मुखात् आकाशाद्घोषवान् प्राणो मनसा स्पर्शरूपिणा छन्दोमयो मृतामयः सहस्रपदवीं प्रभुः ओङ्कारा व्यञ्जितस्पर्शस्वरोष्मान्तस्तभूषिता विचित्रभाषा विततां छन्दोपिश्चतुरुत्तरैः अनंतपारां। बृहति सृजत्याक्षिपते स्वयं गायत्रयुष्णिकनुष्ठुप् बृहती पङ्क्तिरेव च दृष्टुब् जगत्यति छन्दो ह्यत्यष्टयति जगत् विराट् किं विधत्ते किमाचष्टे किमनूद्य लोके नान्यो मद्वेत कश्चनहा मां विधत्ते विधत्ते माम् विकल्प्यापोह्यते त्वहम् एतावान् सर्ववेदार्थसप्त आस्तायमाम्भितां मायामात्रमनो द्यान्ते प्रतिषित्य प्रसीदति इति श्रीमद्भागवते महापुराणे एकादश स्कन्थे एकविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरोनाथमहराजकी जी